ओके सर्वेभ्यः नमस्कारः अस्माकं पातः क्षम्यतां नमस्कारः सर्वेभ्यः अस्माकं पातः अनुवर्तते तर्हि इदानीम् इदानीम् इदानीम् इदानीम् इदानीम् भवतु इदानीं तत्र पुस्तके तु प्रसाक्तः विषयः आसीत् तत्र किं रूपरूपाणां परिगणनं रूपरूपात्मकस्य गुणस्य तत्र तस्य लक्षणम् अपि च तदनन्तरं तस्य विभाजनं भवतु तत्र चित्ररूपं प्रसाक्तं चित्ररूपस्य तत्र यतो हि वर्तते हि खलु तत्र मतभेदः प्राचीनानां नवीनानां च अत एव तत्र किम् अव्याप्यवृत्तिः अव्याप्यवृत्तिः इति एतत् उभयं तत्र आगतम् एतत् परिभाषिकं पदम् इदानीं तत् परिभाषिकं पदं विलोचयितुं परिशीलयितुम् इदं करपत्रं विरचितं जातं भवतु वस्तुतः तु अस्मिन् करपत्रे तत्र अव्याप्यवृत्तिव्याप्यवृत्तित्वं च वस्तुतः अस्माभिः समाप्तम् तदनन्तरम् अन्यात् एकः विषयाः अन्यः एकः विषयाः आरब्धः जातः नाम अवच्छेदकत्वम् अवच्छेदकत्वं तत्रापि अस्माभिः किञ्चित् पतितं किञ्चित् पतितं तर्हि किं कुर्मः पुनरेकवारं पठामः वा यथा यथा त्याक्तं यत्र त्याक्तं तस्मादेव पठामः एकवारं पठामः वस्तुतः तत्र यतोहि इदानीं तत्र कश्चन प्र प्रश्नः तत्र प्रतिपद्यते आरम्भे नाम तत्र अवच्छेदक अवच्छेदकत्वम् इति तत्र यद्यपि एतत् पदं तत्र न्यायशास्त्रे न्यायशास्त्रे प्रयुज्यते परन्तु तस्यार्थद्वयम् इव भाति तयोः द्वयोः भेदः कः इति अग्रे सः निरूपयति परन्तु पुनरेकवारं यथा प्रश्नः सम्यक् मानसि तिष्ठति तथा एव पुनरेकवारं पठामः नाम अवच्छेदकत्वं नित्य अत्र आरभ्य तर्हि पुनरेकवारं तत्र मीनाक्षी भगिनी कृपया पचतु हरपत्रं दर्शयति महोदय करपत्रं दर्शयामि इति प्रश्नः दर् कथं दर्शयामि <laughs> शेर् ओके शेर् तर्हि कृपया तस्मात् एव पततु भगिनी वस्तुतः मया प्राक् कदाचित् न कृतं तत्र इदानीं किञ्चित् तत्र सेफ्टि सेटिङ्ग्स् परिवर्तनीयं तर्हि तथा एव कृपया पततु यदि असमीपस्ति तर्हि पततु कृपया अवच्छेदकत्वं रूपं व्याप्यवृत्तिः गुणः रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयानि चर्चा अ, उपकारिका अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धं उदाहरणं कपि वृक्षयोः कपिः वृक्षस्य अग्रभागे वर्तते mm -hmm. व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः एतस्य विषयम् अत्र चिन्तनं भवति भवती अथवा जातं चिन्तनं जातं चिन्तनं जातं अत्र <coughs> प्रसिद्ध उदाहरणं स्वीकृतं कपिवृक्षयोः इति उदाहरणम् अत्र कपिः आत्र, कुत्र वर्तते कपिः वृक्षस्य अग्रभागे वर्तते तर्हि तर्हि भगिनी तर्हि तथा वदामः चेत् तर्हि इदानीम् अनेन उदाहरणेन किं प्रदर्श्यते तत्र किम् उदाह्रियते वस्तुतः अनेन अव्याप्यवृत्तित्वं वा अव्याप्यवृत्तित्वमेव सम्यक् भवतु समीचीनं केवलं तथा भवतु सम्यक् तर्हि अग्रे Uh, एव विद्याधरिया एक वृक्षे अक अस् अग्रदेशवर्तीशाखायां अभास्तु मूलदेशखायां अग्र कपनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठा अकता तस्याः अवच्छेदकम् मूलञ्च कपि संयोग अभावनिष्ठा आधेयता निरूपितवच्छेदकाशबिमस्ति पठितं तत्र करपत्रे भगिनि तत्र एकं वर्तते शीर्षकं नाम तत्र परिच्छेद तृतीयं वा तृतीयं परिच्छेदम् अवच्छेदकत्वम् चतुर्थं महोदय एतस्मिन् एव वृक्षरूपे वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति इति अहं न अवगतवती अग्रदेशः तत्र नाम तत्र तस्मिन् उदाहरणे सः तथा एव प्रयुङ्क्ते अग्रभागे अग्रभागे तथा एव अग्रदेश अग्रदेशवर्ति इत्युक्ते अग्रभागे कपिः अग्रभाग नाम नाम अप्पर् अप्पर् पोर्शन् उत्तरभागे उत्तरदेशे तत् अवगतम् इत्युक्ते अग्रभा अग्रभागः अस्ति अधिकरणम् तस्य अभावः तु मूलदेशवर्तिशाखायां केवलम् अग्रभागे कपिः अस्ति अन्यत्र नास्ति खलु कपि अन्यत्र नास्ति अत्र मूलदेशवर्तिः वर्ति अभावः वर्तते कपेः अभावः वर्तते एवञ्च अपि च अपि च न एवञ्च लैक् सेम् वे एवं च इन् द सेम् वेन् दिस् वे इन् दिस् वेण्ड् इन् दिस् वे एवं च एवञ्च निरूपिता या वृक्षनिष्ठा आधेयता निरूपिता अभिकरणता तस्याः अवच्छेदकमस्ति अग्रम् अग्रम् अवच्छेदक अग्रम् अपिनिष्ठायता निरूपितम् अपिनिष्ठा आधेयता निरूपिता या वृक्षायता निरूपिता खलु निरूपिता सापिनिष्ठिनी कपिनिष्ठ अधेयता कपिनिष्ठ अधेयता नाम यथा देवदत्तः भूतले अस्ति तर्हि देवदत्ते अधेयता अस्ति तर्हि देवदत्तनिष्ठ अधेयता तथा कापिः यदा वृक्षे वृक्षे अस्ते тархи капиништа адеята окей капиништа адеята вартате тата при врикшта ништа дикараната вартате та йога не рупи не рупа кабгава ха атаева иданим врикше ништа дикараната васупаха я врикше ништа дикараната нама я капиништа адеята не рупита врикше ништа дикараната тасйаха अवच्छेदकं वर्तते अग्रम् इति तथा योजनं तत्र कर्तव्यम् अग्रम् इति अवच्छेदकम् आम् आम् च कति संयोगभावनिष्ठा अधीयता निरूपित अभिकरणता अवच्छेदकम् अत्र अवच्छेदकम् इत्युक्ते किं दत्तमस्ति तदेव तदेव तत्र अवच्छेदकम् इति पदं प्रयुक्तम् इदानीं तत्र अग्रे वदति यत् प्राक् अस्माभिः अवच्छेदकम् इति पदं दृष्टं तत् प्रायः तत्र किञ्चित् अन्यस्मिन् अर्थे इतरस्मिन् अर्थे प्रयुक्तं तत्र भेदकः कथम् अप्रा इदानीम् अवच्छेदकः इति पदं कथं समीचीनतया अवगन्तव्यम् इति वस्तुतः स एव विषयः अग्रे निरूप्यते अग्रेपात्ता, अग्रेपात्ता। तारा तारा तारा तारा अग्रे पठामि अग्रे पठतु परन्तु इदानीं तत्र किं तत्र भवतु यदि सम्यक् न अवगतम् इति तत्तु भवतु नाम यतोहि तदेव अग्रे निरूप्यते परन्तु तत्र प्रायकः आर्तः अवगतः इति मन्ये इदानीं वृक्षः अत्र कपिः अग्रे अग्रभागे अस्ति वृक्षः क्षम्यतां कपिः मूलभागिः नास्ति अत एव वृक्ष तत्र कपिनिष्ठयता निरूपितवृक्ष निरूपितवृक्षनिष्ठधिकरणता तस्य भवतु कपिनि कापि संयोग अभावनिश्च निरूपित अभावनिष्ठ अभावनिष्ठधीयता तद् निरूपित अधिकरणता या वर्तते तस्यावच्छेदकं वर्तते मूलं मूलम् <mulam>, आम् uh, hmm. परन्तु कपिनिष्ठादयता निरूपितवृक्ष निरूपितवृक्षणतायाः अवच्छेदकं वर्तते अग्रं भवतु इति तथा उक्तं तथा विद्याधर्याम् उक्तम् इदानीं तत्र अग्रे पश्यामः so, अग्रे यत्र कपिः वर्तते तत्र अग्रम् अवच्छेदकम् अग्रम् अस्ति यत्र कपेः अभावः अस्ति मूलम् अवच्छेदकं वर्तते आं तदेव यतोहि तथा एव वक्तुं शक्यते नाम वृक्षे उभयं वर्तते कपि अधिकरणता अपि च कपि अभावादिकरणता इदानीं वृक्षः उभयत्वेन तत् द्रष्टुं वृक्षः कपेः अधिकरणम् अपि च कपि अभावस्य वर्तते इदानीं तत् तत् उभयामधिकरणम् एकस्मिन् तत्र द्रव्ये यतो न सङ्गच्छते तर्हि तत्र किञ्चित् तत्र विशेषः कश्चन कर्तव्यः विशेषणं किञ्चन दत्तव्यम् अथवा अवच्छेदकं किञ्चित् दत्तव्यम् अतः एव सः वदति इदानीं वृक्ष कति कति अधिकरणता या या वृक्षे वर्तते स अग्र अग्रभागेन अवच्छिन्नः अन्या तु नाम कात्याभावादिकरणता या वृक्षे या अधिकरणता वर्तते सा मूलत्वेन वचनं भवतु अवच्छिन्न तत्र अवच्छिन्नवस्तुतः विशिष्टः इत्यादि अस्मिन् अर्थे अवगन्तव्यं तत्तु अग्रे सर्वं वदति मन्ये भगिनि अनेन अपि भवति वृक्षे कपि संयोग अभावः अपि हा, भवति वृक्षे hmm. द्वावपि इति इत्युक्ते द्वौ अपि द्वावपि द्वाव कपि संयोगः कपि संयोग अभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः अत्र ध्येयम् यत् पूर्वं चर्चितः विषयः घटा घट गत अभावः भूतले विद्यमान विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम् अस्यां दशायां यत् अवच्छेदकत्वं, आ, यत अवच्छेदकत्वं अपि च कपि संयोगस्थले यत् अवच्छेदकत्वं द्वयम् अपि भिन्नम् विद्याधर्यां घटत्वादिनिष्टप्रतियोगित प्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूला मूल अग्रनिष्टं भिन्नम् वृक्षे वृक्षस्य उपरि कपि संयोगः अपि अस्ति कपि संयोग अभावः अपि भवति एकस्मिन् समये वृक्षे कथं कथं स्यात् एतस्य प्रतिपदा प्रतिपादनार्थम् अवच्छेदकस्य विचारः करणीयमस्ति इत्युक्ते एकत्र कपि संयोगः अस्ति अन्यत्र अपेक्षयोः अभावः अस्ति द्वयोः अपि एकस्मिन्नेव समये वर्तते तस्य तस्य प्रतिपदा प्रतिपादनार्थं प्रतिपादनार्थम् अवचेदकस्य विचारः अपेक्षितः वि नीड् वि अप अवच्छेदकस्य विचारः hmm. hmm. अत्र घटाभावः गत, भूतले घटे विद्यमानप्रतियोगि वु, प्रतियोगितायाः इतः पूर्वं वयम् एतस्य विषयः चर्चितः अवच्छेदकमस्ति घटत्वम् अवच्छेदकत्वं विषयम् अत्र चर्चितम् इदानीं अथवा अग्रे वसतः सः चर्चयिष्यति नाम केवलं सः वदति गतत्व विद्याधरी गतवाक्यं वा भगिनि इदानीं पश्यति विद्याधर्यां हा गतत्वादिनिष्ठप्रतियोगितावच्छेदकत्वं प्राक् अस्माभिः दृष्टं तत् प्राक् अस्माभिः दृष्टं गतत्वादिनिष्ठप्रतियोगितावच्छेदकत्वम् तद्भगिनी जानाति तत्र किम् अभावः यः वर्तते तस्य अभावस्थ अभावस्य प्रतियोगीपि वर्तते नाम यदि घतो नास्ति घता अभावः इति वदनेन भवतु तत्र लौकिकं वाक्यं घत घताभावः अथवा घतस्य अभावः तदेव वाक्यं न्यायभाषायां घतप्रतियोगिकाभावः इति वद इति उच्यते तथापि इदानीं तदेव तामेव न्या भाषम् इदानीं सूक्ष्मीकृत्य तत्र घटत्व अव घतत्वावच् तत्र गतत्वावच्छेदक अवच्छेदक भवतु घतत्वावच्छेदकम् अवच्छेदक अभावः अथवा घटत्वावच्छिन्नाभावः इति तथापि वक्तुं शक्यते नाम घतत्वं गतत्वम् अभावस्य अवच्छेदकं भवति अथवा अवच्छेद्घार्मः अवसदः तथा एव वदामि चेत् तत्सन् समीचीनं सम्बन्वितं भवति नाम गत गतत्वं तत्र घटनिष्टगतत्वावच्छिन्न प्रतियोगिता या सा प्रतियोगिता तत्र अभावं गताभावं तथा पृथक् करोति अथवा अव अवच् अवचिन् अव किम् अवचिन्नति अवचिद् अवचिन्न अवचिन्न अवगच्छति वा भगिनि हा न न वस्तुतः तत्र बहु मया किमपि अत्र अपि न वक्तव्यं केवलं सः वदति इदानीम् अत्र एतद् वाक्यं प्रयुक्तं विद्याधर्यां नाम मूलं तत्र अवच्छेदकम् अथवा भवतो नाम तत्र आग्रम् अवच्छेदकम् ओके इति समीचीनं भवति परन्तु प्राक् अस्माभिः अवच्छेदकः अवच्छेदक इति पदं प्राक् अभाव तत्र अभावनिरूपणविषये दृष्टम् तत् स्मरति वा भगिनि अभावनिरूपणविषये भवतु तत्र कस्मिंश्चित् पृष्टसङ्ख्ये तत्र पृष्ठे पृष्ट भवतु नाम कुत्राचित् अस्माभिः दृष्टमेव तत्र कोऽपि संशयः नास्ति नाम अभावः अभावनिरूपणसमये अस्माभिः अपि अवच्छेदकम् अवच्छेदकम् इति पदं प्रयुक्तम् तत्र अन्यः इदानीं सः किं वदति अत्र अस्मिन् प्रसङ्गे नाम कापि संयोग इत्यादिक कापि वृक्षसंयोगी इत्यादिके प्रसङ्गे यत्र यदा विद्यादरीकारः अवच्छेदकम् इति पदं प्रयुङ्क्ते सः तत् पदम् एव अर्थे प्रयुज्यते तत एव तदेव विद्यादर्यं स एव अर्थः विद्यादर्यां साक्षादेव उक्तः गतत्वादिनिष्टप्रतियोगिता गतत्वादिष्टप्रतियोगिता प्रचियोगितावच्छेदकत्वं यत् अस्माभिः प्राक् तस्मात् इदम् अवच्छेदकत्वं नाम अस्मिन् प्रासाङ्गि निरूपितम् अवच्छेदकं कीदृशं मूलाग्र मूल मूलनिष्टम् आग्रनिष्टम् इत्यादिकं भिन्नं नाम अन्यत् वर्तते इति अन्यत् अस्ति इति एतावता इदानीम् अवगन्तव्यं भवतु तत्र प्राक् उक्तुम् विस्मरतु केवलम् इदानीम् एतावदेव अवगन्तव्यम् एतत् अवच्छेदकं अन्यस्मात् प्राक् दृष्टात् अवच्छेद कत् भिन्नं भिन्नं भिन्नं hmm. सम्यक् समीचीनं भवतु इदानीं तथा एव गच्छामः इदानीं सो एव विषयः इदानीम् अद्य यदस्माभिः पत्यते तत् तस्मिन् विषये एव कथाम् अयं भेदः सङ्गच्छते कुत्र भेदः इत्यादिकं भवतु तर्हि अपार्णभगिनी वा प पतति धन्यवादः या प्रथमतया घटस्य उदाहरणं स्मरेम भूतले गटा भावः गटा भावं प्रति यः विरोधः सः गटे विद्यते अतः गटस्य आनयनेन घटाभावः नश्यति गटे यः घटाभावविरोधः स च प्रतियोगिता नामकः तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम् तच्च अवच्छेदकमपि घटे स्यात् सर्वदा च घटे स्यात् अन्यत्रापि अन्यत्रापि न स्यात् घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकम् यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता वर्तते यस्य द्वारा घटाभावः नष्टः स्यात् प्रतियोगिता च भिद्यते अवच्छेदेन अतः तस्याः नाम अवच्छेद्या एतस्मिन् परिच्छेदे अवच्छेदकस्य निरूपणम् एक उदाहरणात् उदाहरणम् उपयुज्य कुर्वन्ति प्रथमतया घटस्य उदाहरणं स्मरेम भूतले घटाभावः अस्ति घट गत, घटाभावः भूतले अस्ति घटाभावं प्रति यः विरोधः सः घटे विद्यते गटे यः विद्यते सः एव घटाभावस्य विरोधः अतः गटस्य आनयनेन यदा वयं ग... यदा घटं आनयामि तदा गटाभावः नश्यति गटे यः घटाभावविरोधः विरोधः च प्रतियोगिता नामकः प्रतियोगिता इति पदस्य निरूपणं पूर्वमेव दृष्टं पारिभाषिकपदमस्य प्रतियोगिता यः घटाभावविरोधः अस्ति सः प्रतियोगिता तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपदा प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम् अत्र अवच्छेदकं किमर्थम् अपेक्षितम् इति लिखितं घटाभावविरोधिनी प्रतियोगिता कुत्र तत् निरूपयितुम् अवच्छेदकम् अपेक्षितम् अवच्छेदकमपि गटे स्यात् सर्वदा गटे स्यात् अन्यत्र न भवति अवच्छेदकं सर्वदा घटे एव स्यात् घटे विद्यमानं गटत्वं प्रतियोगितायाः अवच्छेदकं तत्र सम्ब प्रतियोगितायाः तदनन्तरं घटत्वमध्ये सम्बन्धम् उक्तं घटे विद्यमानं घटत्वं प्रतियोगितायाः प्रतियोगितायाः अवच्छेदकं यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता भवति यस्य द्वारा घटाभावः नष्टः स्यात् प्रतियोगिता च विद्यते यत्र यत्र यत्र यत्र घटत्वम् अस्ति तत्र प्रतियोगिताया प्रतियोगितापि वर्तते यस्मिन् द्वारा घटाभावः नश् नश्यति प्रतियोगिता च विद्यते अवच्छेदेन अतः तस्याः नाम अवच्छेद्या इति नूतनपदम् अत्र उल्लिखितम् हलो आम् आमाक्षम्यतां म्यूट् मध्ये आसम् नाम तदेव सम्यक् वस्तुतः अवच्छेद्य अपि पदं प्राग्दृष्टम् इति मन्ये नाम यथा घटत्वे अवच्छेदकत्वं तथा एव प्रतियोगितायाम् अथवा भवतु अधिकरणतायां तत्कुत्रापि तत्र अवच्छिद्यत अत एव तथापि स समन्वयः अस्माभिः प्राक् कृतः घटत्वनिष्ठ अवच्छेदकथानिरूपित अवच्छिद्यताश्रय प्रतियोगिता सापि दृष्टं परन्तु भवतु नाम तत् सम्यक् इदानीं सम्यक् भवत्यापि सर्वम् अवगतं मन्ये हा अपर्णा भगिनी अहं तत् पृच्छा मे भाति मे यद् भवत्या अपि सर्वं सम्यक् अवगतम् आं महोदय एक प्रश्न अस्ति तत् स्त्रीलिङ्गे अस्तियोगिता स्त्रीलिङ्गम् अस्ति वा तदेव परन्तु कुत्र ीयं वाक्यं वा प्रथमतया गता भूतले गता भव तथा अतः गते तादृशी च गतारोधिनी आ प्रतियोगिता तदेवनी प्रतियोगिता परन्तु पूर्वस्मिन् वाक्ये स च प्रतियोगिता नाम कः इति पुल्लिङ्गे एव अस्ति खलु तत् विरोधः आसीत् मन्ये स च प्रतियोगिता नामकः भवतु यदि समीचीनतया तत्र परिष्कारः कर्तव्यः तर्हि प्रतियोगितानामकः इति समासः समासः भवित समासेन भवितव्यं प्रतियोगितानामकः इति समासः अत्र वर्तते स सविरोधः कः कीदृशः प्रतियोगिता नामः प्रतियोगिता नाम यस्य सः बहुलिः समासः प्रतियोगितानामकः भवतु तत्र स्पैस् कृतं भवतु नाम किं करोमि परन्तु तत्र स्पैस् तत्र परिष्कारः कर्तव्यः इति चेत् तर्हि तत्र स्पेस् त्यक्तव्यं वर्तते प्रतियोगितानामकः इति समासः एकः तस्य प्रधानपदं विरोधः वर्तते आं महोदय अवगतं महोदय धन्यवादः आं तर्हि भगिनी अग्रे कृपया अग्रे एव पठतु कटस्य दृष्टान्ते इत्यादिकम् अहमेव पठामि वा महोदय कृपया घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकं च अवच्छे द्वयोः समानाधिकरण्यं वर्तते अवच्छेद्या प्रतियोगिता अतः प्रतियोगिता घटत्वयोः अवच्छेद्या प्रतियोगिता प्रतियोगिता घटत्वयोः सामानादिकरण्यम् एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कृतम् अन्यून्य अनतिरिक्त वृत्तित्वरूपावच्छेदकता यतोहि प्रतियोगिता घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं म्यूचुवलि किं तदेव अनतिरिक्तवृत्तित्वम् वसतः तद् द्वितीयं यत् उक्तम् अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं तत् अन्यूनत्वम् इति अस्य अस्य किं अस्य समन्वयः तत्र दत्तः नाम अनजिरिक्तत्वम् अनजरिक्तत्वं नाम भवतु तर्हि यत्र यदा अत्र आगच्छेम तदा वदामि वाक्यशः गच्छामि टस्य दृष्टान्ते अवच्छेद्य अवच्छेदकम् इति द्वयोः वर्तते अवच्छेद अवच्छेदकयोः मध्येकरण्यं वर्तते अवच्छेदरण्यं वर्तते किं नाम किं इत्युक्ते सम्बन्धः समान भवानेव वदतु महोदय न तत् किं चिन्तयति कृपया भवतु खलु तत्र दृष्टान्त नाम एक्साम्पल् उदाहरणे केवलम् उदाहरणे समानाधिकरणम् इत्युक्ते अत्र अवच्छेद्या इति प्रतियोगिता अनन्तरम् अवच्छेदकम् इति घटत्वम् अस्ति so सो घटत्वं कुत्र वर्तते इति प्रश्ने सति घटे वर्तते प्रतियोगिता कुत्र वर्तते इति प्रश्ने सति पुनः घटे एव सो घटत्वमपि घटे अस्ति प्रतियोगिता अपि घटे अस्ति एवं न उक्त्वा अवच्छेदकमपि घटे अस्ति अवच्छेद्या अपि घटे अस्ति इति कृत्वा द्वयम् अपि अवच्छेदकम् अवच्छेद्या दट् इस् घटत्वं प्रतियोगिता द्वयमपि घटे अस्ति इति कारणेन इति कृत्वा समानाधिकरण्यं वर्तते इति एव उक्तं समीचीनं समानम् अधिकरणं ययोः अथवा यः धर्मः यस्य समानमधिकरणं वर्तते तत्र समानाधिकरणः धर्मः इदानीं तस्य भावः समानाधिकरणत्वम् अथवा सामा सामानाधिकरण्यम् इति तदेव उच्यते समानाधिकरण्यं नाम तत्र तादृशधर्मः येन द्वयोः वा त्रीणां वा एकम् एव भवति यदि द्वयोः त्रीणां वा चतुर्णां वा, वा एकम् अधिकरणं वर्तते तर्हि तयो तेषां धार्माणां सामानाधिकरण्यम् इति तत्र उच्यते तथा एव इदानीं घटत्वं प्रतियोगिता च समानाधिकरणौ धर्मौ स्तः अत एव तयोः समान समानाधिकरणौ स्तः नाम किं तत् उभयं घटत्वं च प्रतियोगिता च अस्मिन् उदाहरणे घटे एव विद्येते घते एव स्तः अत एव तयोः समानाधिकरण्यं वर्तते एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कृतम् अन्यून्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकथा यतो हि प्रतियोगिता घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति घटत्वमपि घटे वर्तते प्रतियोगिता अपि घटे वर्तते अनतिरिक्तवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वम् तत्र तत्र प्रतियोगिता अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् एव घटत्वे वसतः एव वर्तते नाम अवच्छेदका अवच्छेदकथा तस्याः एव तत्र लक्षणं दीयते अन्यूनानचिरिक्तवृच्छित्वम् अवच्छेदकत्वम् अथवा न न्यूनानचरिक्तरूपा अवच्छेदकथा तथा प्राक् मयापि उक्तं रूपा इति तत्र पदं किमर्थम् अनीतम् अहं न जाने परन्तु अन्यूनानचिरिक्तवृच्चित्वम् अवच्छेदकत्वम् इति उच्यते नाम घटत्वं प्रतियोगितायाः अवच्छेदकं भवति तर्हि एतद् उभयं यदा प्राक् अस्माभिः दलपरीक्षणं कृतं यदा कृता तत्र दलद्वयं वर्तते नाम अन्यूनत्वं च अन्यून अन्यूनवृच्छित्वम् अनचरिक्तवृच्छित्वं च इति उभयं यदा सङ्गच्छते तदा एव अवच्छेदकता तदा एव एकः धर्मः अन्यस्य धर्मस्य अवच्छेदकः भवितुम् अर्हति इदानीम् अत्र नाम अनचरिक्तत्वं नाम किम् अनचरिक्तत्वं नाम यत्र यत्र अवच्छेदकधर्मः तत्र तत्व नाम अवच्छेदकधर्मस्य यः कोऽपि यः कोपि किमपि नास्ति यत्र अवच्छेद्यः न स्यात् अवच्छेदकस्य घटत्वस्य यत्किमपि अधिकरणं नास्ति यत्र अवच्छेद्यः नाम नाम प्रतियोगिता न स्यात् नाम यत्र यत्र कुत्रचित् अवच्छेदकः लभ्यते यत्र कुत्रचित् घटत्वं लभ्यते तत्र सर्वत्र सर्वदा एव प्रतियोगिता नाम अवच्छेद्यः अत एव अवच्छेदकस्य अनचरिक्तवृचित्वम् इति उक्तं तथा एव अवच्छेदकस्य अन्यूनवृच्चित्वम् इति अन्यत् तत्र अन्यत् वर्तते दलम् अवच्छेदकस्य अन्यूनवृच्चित्वम् अन्यूनवृचित्वं नाम तत्र अनचरिक्तवृचित्वं नाम सो अवच्छेदक इस् इस् दोट् एक्स्टेण्ड् बियो अवच्छेदवर्चित्वं मीन्स् इलो सो it it does not go it does not a queue yeah, um, okay below like but on tatnamakim tat tat tat ravi parita tayata tayopradrishtey idam yatra kutrapi prati yogita tatra sarvata ghatatvam api nama eka eka vartate eka vartate eka vartate nimittam sarvada yada kutra citava ceda kah tatras sarvadati avacchejaha इति एकं निमित्तं द्वितीयं च वर्तते यत्र कुत्रचित् अवच्छेद्यः नाम तादृशं यत्किमपि स्थलं नास्ति यत्र अवच्छेद्यं वर्तते परन्तु अवच्छेदकः नास्ति अत एव अवच्छेदकस्य अन्यूनवृच्चित्वम् अपि च नाम सम्पूर्णम् अवच्छेद्यस्य विषयं ज्ञाप्नोति अत तथा एव अवच्छेद्यः अवच्छेदकस्य सम्पूर्णं विषयं व्याप्नोति इति उक्त्वा अनचरिक्तवृत्तित्वम् अहम् अवगम्यते अथवा मया किञ्चित् पुनर्कुक्तवान् नोट् मोर् नोट् लेस्न्यून् नोट् लेस् अनचरिक् नोट् मोर् वृत्तित्वम् आम् सम्यक् भवतु तत्तु तत्र अभावीय प्रतियोगिता भवतु अभावीया इति मास्तु केवलं केवलम् अवच्छेदकता या प्राग् दृष्टा सा तादृशी नाम तस्य लक्षणम् एतदेव एतदेव कृतम् अन्यूनाचरिक्तविरचित्वम् अवच्छेदकत्वं तत्तु समानाधिकरणयोः धर्मयोः एव सङ्गच्छते परन्तु अत्र अधुना कपिवृक्षयोः आकृतिः अवलोकनीया कपिसंयोगः वृक्षस्य अग्रभागे कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते अत्र आधेयता आधेयतानिरूपित अधिकरणता अवच्छेद्या अवच्छेदकं च वृक्षस्य अग्रभागः अग्रे पठनीयं वा एतत् वदामि वा अस्तु वदामि यथा इदानीम् अस्माकं विषयः अस्ति कपिवृक्षयोः मध्ये यद् उदाहरणं स्वीकृतम् अस्ति कपिवृक्षः इति द्वयम् इति इति तत्र वयं पश्यामः कथं घटविषये यथा वयम् अवच्छेद्या अवच्छेदकम् इति उक्तवन्तः तथा अत्र का स्थितिः इति कपिसंयोगः कुत्र अस्ति इति प्रश्ने सति वृक्षस्य अग्रभागे अस्ति इति वाक्यं तदनन्तरं कपिसंयोगनिष्ठपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अस्तु अत्र यदि पश्यामः चेत् क अधिकरणता वृक्षे अस्ति वृक्षः अधिकरणम् अधिकरणता वृक्षे अस्ति या अधिकरणता अस्ति आधेयता कपिसंयोगे अस्ति कपिसंयोगः यत्र अस्ति तद् कपिसंयोगः कुत्र अस्ति चेत् कपिसंयोगः वृक्षे अस्ति कपिसंयोग वृक्षे अस्ति कृत्वा कपिसंयोगः आधेयः अस्ति वृक्षः अधिकरणम् अस्ति कृत्वा कपिसंयोगे आधेयता अस्ति वृक्षे अधिकरणता अस्ति अतः पूर्वं यथा कपिसंयोगः वृक्षः कपिसंयोगे आधेयता वृक्षे अधिकरणता द्वयो द्वयोः मध्ये निरूपणनिरूपकभावः अतः कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे इति आश्रयः वृक्षः इति अधिकनन्ताश्रयः वृक्षः नो चेत् अधिकनन्त वृक्षे अस्ति इति <laughs> <आ>, उक्तं <laughs> यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते घटविषये उक्तवन्तः घटे घटत्वम् अस्ति प्रतियोगिता अस्ति तत्र प्रतियोगिता एव अवच्छेद्या अवच्छेदकं घटत्वं तादृशमेव अत्र का प्रतियोगिता इति प्रश्ने सति क्षम्यतां का अवच्छेद्या इति प्रश्ने सति यद् कपिसंयोगनिष्ट आधेयता निरूपित अधिकरणता अस्ति वृक्षे या अधिकरणता अस्ति तस्या सा एव अवच्छेद्या अस्ति घटस्थले घटविषये प्रतियोगिता अवच्छेद्या अस्ति कपिवृक्ष उदाहरणे अधिकरणता अवच्छेद्या अस्ति इति hmm. यदि hmm. एतस्मिन् कपि संयोगविषये अधिकरणता अवच्छेद्या अस्ति चेत् अवच्छेदकं किम् इति प्रश्ने सति अत्र कपि संयोगः इति उक्तम् अतः अग्रभागे अस्ति कृत्वा अग्रभागः एव hmm. अवच्छेदकम् अग्रभागे अवच्छेदकत्वम् अस्ति समीचीनं okay. hmm. hmm. अग्रे तर्हि घटः hmm. घटा कपयोग कपयोगा दृष्टातो भेद कटघटा सहानवस्थानूप विरोध वर्तन भूतले यदा अस्था घट नितरास्त घट अस्त घटा भाव नितरास्त किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव अव्याप्यवृत्तिः गुणः इति कारणतः स्व अभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं नाम mm. वृक्षे समानकाले कपिसंयोगः अपि अस्ति कपिसंयोग अभावः अपि अस्ति अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति इति अत्र घटः घटाभावः कपिसंयोगः कपिसंयोगाभावः पश्यामः चेत् समानम् इति दृश्यते घटः घटाभावः कपिसंयोगः कपिसंयोगाभावः परन्तु भेदः कुत्र इति पश्यामः चेत् घटः अस्ति चेत् घटाभावः नास्ति घटाभावः अस्ति चेत् घटः नास्ति इति सो पूर्वं वयं दृष्टवन्तः नकुलः सर्पः विषये एकस्मिन् स्थले नकुलः सर्पः द्वयं प्रथमं नकुलसर्पः एव अस्ति नकुलसर्पः एकस्मिन् स्थले अस्ति अनन्तरं नकुलः एव तत्र तिष्ठति इति एकं दृष्टवन्तः द्वितीयमस्ति घटः घटाभावे तत्र किमस्ति एकम् अस्ति चेत् अन्यत् नास्ति कदापि एकस्मिन् क्षणे अपि द्वयम् अपि एकस्मिन् क्षणे समानस्थले नास्ति एवं कृत्वा तत्र उक्तवन्तः सः अनवस्थारूपः विरोधः कीदृशः अस्ति सहानु सहानवस्था रूपः विरोधः घटघटा घटभाव घटाभावयोः मध्ये इति एव सो so, अत्र एकः अस्ति चेत् अन्यत् नास्ति परन्तु कपी वृक्षयोः तत्र पश्यामः चेत् कपि संयोगः अस्ति वृक्षे तस्मिन् समये एव कटि कपि अभावः अपि अस्ति समानवृक्षे तस्मिन् समये एव कपि संयोग अभावः अपि अस्ति सो अत्र किम् अस्ति एकस्मिन् समये एव वृक्षे एकस्मिन् भागे कपि संयोगः अस्ति अपरस्मिन् भागे कपि संयो कपि संयोग अभावः अस्ति एतत् किमर्थम् इति प्रश्ने सति कपि संयोगः अव्याप्यवृत्तिः गुणः इति कपि संयोगः संयोगः इति यः गुणः तद् अव्याप्यवृत्तिगुणः इति कारणतः एव अत्र यद् पूर्वमपि वयं पठितव पठितवन्तः स्व अव्याप्यवृत्तिः अस्ति कथं वयं वयं जानीमः स्व अभावस्य अधिकरणे यत्र अभावः अस्ति तत्र एव स्वस्य युगपत् विद्यमानत्वं तदपि अस्ति इति कारणत्वेन अव्याप्तवृत्तिः इति उक्तवन्तः संयोगः तदेव अत्र उक्तमस्ति अतः एव नाम वृक्षे समानकाले कपिसंयोग अपि अस्ति अस्तु अत्र कपिसंयोगः इति गुणः अव्याप्तवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति तत्र घटाभावे घटाविषये वयम् अवच्छेदकं तु घट घटत्वम् इति स्वीकृतवन्तः तत्र तु एकस्मिन् स्थले एकस्मिन् समये एव द्वयमपि नास्ति परन्तु अत्र तादृशी स्थितिः नास्ति अतः अत्र अवच्छेदकविषये भिन्नरीत्या किञ्चित् चिन्तनीयम् इति एव एतस्मिन् परिच्छेदे वर्हि कपि संयोगः इति गुणस्य अव्याप्यवृत्तित्वनिर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते तदर्थं विद्याधर्यां लिखितम् अस्ति अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम् अत्र अग्रभागस्य अवच्छेदकत्वं किम् अवच्छेदकत्वं वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं तद् अवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते या अधिकरणतानिरूपित आधेयता कपिसंयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते इति <laughs> अस्तु कपिसंयोगः इति गुणस्य अव्याप्यवृत्ति निर्वाहार्थं वृक्षे अग्रभागस्य अस्तु अत्र आ, यथा पूर्वस्मिन् परिच्छेदे उक्तं यद् संयोगः कपिसंयोगः इति यः गुणः तद् अव्याप्यवृत्तिः तद् बोधनार्थं तद् दर्शनार्थम् इति एव अग्रभागस्य अभ अवछेदकत्वम् इति स्वीक्रिय क्रियते इत्युक्ते अग्रभागः अवच्छेदकः इति सो अग्रभागे अवच्छेदकत्वम् अस्ति इति स्वीकृतम् अस्ति तदर्थं विद्यादय्यां लिखितम् अव्याप्यवृत्तित्वनिर्वाहार्थम् अवच्छेदकत्वम् अत्र हा सो अग्रभागे अवछेद अवछ अग्रभागे अवच्छेदकत्वम् अस्ति अग्रभागः अवच्छेदकः अस्ति किम् अवच्छेदकत्वम् अस्तु अवच्छेदकत्वं वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वम् अस्तु तत्र एतदेव अवच्छेद्या किम् इति प्रश्ने प्रश्ने सति इति एव स अधिकरणतायाः एव अवच्छेदकम् अस्ति अग्र अवच्छेदकः अस्ति अग्रभागः इति एव अतः प्रश्नः किम् अवच्छेदकत्वं वृक्षनिष्ठ प्रश्नः तु अचनं समीचीनः नास्ति तत्र किम् अवच्छेदकं तत्र समासे वासे कस्याेदकत्वम् अधिकरणतायाः अवछेदकत्वम् इति एव सो so, एवं तद् अवच्छेदकत्वं किमर्थं स्वीकृतं किमर्थम् अग्रभाग अग्रभागे अवच्छेदकत्वम् अस्ति इति उक्तं चेत् अधिकरतानिरूपित आधेयता कपिसंयोगे अस्ति संयोगे संयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थम् इति एव विषयः तु अवगतः तथा समानमेव कपि अस्ति कपिसंयोगः आधेयः सो so, आधेयता अस्ति कपिसंयोगे तेन निरूपित तया निरूपित अधिकरणता वृक्षे अस्ति परन्तु कुत्र अग्रभागे एव सो अतः अग्रभागे अवच्छेदकत्वम् अस्ति इति कृत्वा एव अव्याप्यवृत्तित्वं सूचनार्थम् एवम् उक्तम् अस्ति नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते किमर्थं मूलभागे तु कपिसंयोग अभावः अस्ति अग्रभागे एव कपिसंयोगः अस्ति इति कृत्वा अग्रभागे अवच्छेदकत्वम् इति अस्ति इति बोधनार्थमेव एतत् सर्वम् उक्तम् अस्ति इति आम् आम् सम्यक् समीचीनम् समीचीनं भवतु तर्हि सर्वैः वगतं वा अथवा पुनरेकवारं किञ्चित् तत्र वक्तव्यम् भगिन्या सम्यक् उक्तम् इति मन्ये सम्यक् प्रतिपादितं शुभः इदानीं साक्षात् प्रश्नः नास्ति चेत् तर्हि अग्रे गच्छामः तर्हि इदानीं सः विषयः सामान्यरूपेण प्रतिपादितः पुनरेकवारं सः एव स एव विषयाः तत्र किञ्चित् तत्र सूक्ष्मदृष्ट्या नाम तत्र यत् न्यून अनतिरिक्तवृत्तित्वं यद् लाक्षणं प्राक् दत्तं तस्मात् एव इदानीं तत् अथवा तम् आक्रि तम् ताम् आश्रित्य पुनरेकवारं स एव विषयः निरूप्यते अतः एव तर्हि तत्र प्रायः किञ्चित् स्पष्टी स्पष्टी भविष्यति इति मन्ये भवतु तर्हि धन्यवादः भगिनि पुष् पुष्पाभगिनी ask ek nimish ah pusta ah ah never i changed the screen it just goes somewhere else um tatabavaha kapi sanyogah um patra ajuna vrikshasya na padavaga agra vagam तत्र तत्र एव अधुना अधुना तदनन्तरं परं तु अपि अधुना वर्तते तत्र अधुना अन्यूना एकनिमिष अग्रे न अग्रे किञ्चित् अग्रे किञ्चित् अग्रे देयं यत् न न उपरि हा हार्दर्धु अधुना अन्यून अनतिवृत्तित्वरूपावच्छेदकता कुत्र वर्तते घटः भूतले घटाभावस्य प्रतियोगिता घटे सा च अवच्छेद्या तस्याः प्रतियोगितायाः विद्यमानम् तच्च अवच्छेदकत्वम् अन्यून अनतिरिक्तवृत्तित्वरूपम् अत्र अवच्छेदकत्वम् ओ घटत्वम् अवच्छेदकत्वम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते अवच्छेदकत्वम् अन्यून अनतिरिक्तवृत्तित्वरूपम् अस्तु अस्तु अवच्छेदकत्वम् एव तद् किमर्थम् इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता अस्तु अनेन घटत्वं प्रतियोगिता च तयोः अन्यूना अतिरिक्तवृत्तित्वम् अस्ति या च अवच्छेदकता वर्तते घटत्वे सा अन्यून अनतिरिक् अन्यून अनतिरिक्तवृत्तित्वरूपा अस्तु एक एकवा वाक्यं पठित्वा वदामि महोदय सम्यक् वा अधुना अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकथा कुत्र वर्तते एतद् पदस्य अर्थं नाम कुत्र कुत्र अस्ति पृष्टे सति घटः गूतले घटाभावस्य प्रतियोगिता घटे अस्ति सा एव अवच्छेद्या तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वम् अस्तु तस् तस्याः तत्तु तस्याः इति वदनेन घटाभावः प्रतियोगि प्रतियोगिता अवच्छेद्या एते सर्वे तस्याः प्रतियोगितायाः अवच्छेदकं घटे घटे अस्ति घटे विद्यमानं घटत्वं घटे विद्यमानं घटत्वं तद् एकवारं कथं लिखितम् एतदेव महोदय महोदय अत्र अनदर् टैटेड् रैट् सेम् थिङ्ग् घटत्वम् अवच्छेदकम् इति कृत्वा हा ग घटत्वम् अवच्छेदकत्वं तत्कारणात् तस्मिन् घटत्वे अवच्छेदकत्वम् अस्ति अस्तु सम्यक् वा महोदय म्यूट् म्यूट् मध्ये अस्ति महोदय क्षम्यताम् अत्यन्तं समीचीनं तदेव स एव अर्थः इदानीं भूतलम् अधिक भगिनि भूतलम् अधिकरणम् इति कृत्वा भूतले अधिकरणत्वं तदेव घतत्वम् अवच्छेदकम् इति कृत्वा गतत्वे अवछेदकत्वं तदेव तच्च अवछेदकत्वम् अन्यून्यूना अनतिरिक्त वृत्तित्वरूपं हा हा तत् तत् तद् द्वे अपि तदेवकत्वम् अन्यून अनिरिक् अनतिरिक्तं वृत्तित्वरूपं द्वे अपि अस्ति तत्र किमर्थम् इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र कटत्वम् अस्ति हा तद् इदानीं पठितम् परि अग्रे पूर्व पूर्व यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता अनेन घटत्वं प्रतियोगिता च हा हा तयोः अन्यून अनतिरिक्त वृत्तित्वम् अस्ति तद् तदेव द्वे अपि घटत्वं अपि प्रतियोगिता अपि अन्योन अनतिरिक्त अस्ति या च अवच्छेदकथा वर्तते घटत्वे सा अन्योन अनति अनतिरिक्तमृत्तित्वरूपा अवच्छेदकथा एव अन्योन अनतिरिक्त अनतिरिक् अनतिरिक्तवृत्तित्वरूपा वा सम्यक् समीचीनं सम्यक् वा भगिनी साक्षात् अपि सर्वम् अवगत अवगच्छति वा तर्हि तत्र वस्तुतः केवलं सः तत्र क्रामशः एतत् निरूपयति अतः एव तथा एतद् एत अस्ति यत् प्राक् mm. न तदेव तत् अस्ति इति अग्रे अपि पश्यामि कृपया किन्तु यः कपि संयोगः भवति वृक्षे तत्र वृक्षे सर्वत्र नास्ति तत्र अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणता किं निरूपिताधिकरणता कपिसंयोगनिष्ठेयता निरूपित अधिकरणता अस्तु केवल अधिकरणता नास्ति अत्र प्रश्नः उदेति तस्याः तस्याः एकनिमिषम् अस्ति किं तथा अधिकरणता केवल अधिकरणता नास्ति अत्र प्रश्नः उदेति तस्याः अधिकरणतायाः अन्यून अति अनतिरिक्त वृत्तित्वरूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा यथा वृत्तत्वम् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदक अवच्छेदकत्वं वृक्ष वृक्षत्वस्य वृक्षत्वस्य भवितुम् अर्हति न वा द्रष्टव्यम् हा हा हा अस्तु वृक्षत्वं वृक्षे सर्वत्र अस्ति वा अपरेषु वृक्षे अप् अपि वर्तते वा तच्च वृक्षत्वम् कपिसंयोगनिष्ठेयतारूपिता अधिकरणतायाः अवच्छेदकम् भवितुम् अर्हति वा mm. यत्र यत्र वृक्षत्वम् तत्र तत्र कपिसंयोगः भवति वा वृक्षत्वं वृक्षस्य मूले अपि अस्ति अग्रभागे अस्ति अपरेषु वृक्षेषु अपि अस्ति तत्र तत्र वृक्षेषु इति वत् वदति तत्तु बहु बहुवचने तत्र तत्र कपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता अस्ति किम् अतः वृक्षत्वस्य अन्योन अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वम् न सम्भवति अत्र सर्वे व्याप्तिः नास्ति तत्कारणात् एतत् वृक्षत्वस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं न सम्भवति इति वदति तद् तद् कथमागच्छति इति पूर्वे विवरणं कृतम् अत्र कप् कपि संयोगः वृक्षे अस्ति परन्तु अत्र सर्वत्र नास्ति अवच तत्र अवचेद्या वृक्षनिष्ठ अधिकरणता वृक्षनिष्ठ अधिकरणता तत्र परन्तु किं वदामि अत्र एकपक्षे अस्ति अन्यपक्षे नास्ति इति वदति सम्यक् वा अपि च वृक्षत्वं तत्र सर्वदा नाम वृक्ष केवलं यद् अधिकरण तत्र कपि कपि संयोगस्य कथं निरूपित अधिकरणता यदि सादृश तत्र अस्माभिः परिशील्यते तस्या वृक्षत्वं यदि भवति तर्हि यत्र कुत्रापि वृक्षत्वं तत्र सर्वत्र कापि निरूपित अधिकरणत्वं परन्तु इदानीं मदीय यत् तत्र गवेक्षणात् यत् प्रति वर्तते एकः वृक्षः तत्र कापि नास्ति एव अहं तत्र प्रत्यक्षं साक्षात् पश्यामि अथैव तत्र वृक्षत्वं तथैव अत एव अत्र पक्ष तत् पक्षे अस्ति अन्यत्र अन्यत्र पक्षे अत एव अन्यून तत्र अनचिरिक्त तत्र वृक्ष वृक्षत्वस्य अनचिरिक्तवृत्त वृत्तित्वं न सङ्गच्छते अपि च वसतः तथापि कापि संयोगः कापि अधिकरणत्वं न केवलं वृक्षे वर्तते परन्तु अन्यत्र कुत्रचित् वर्तते शैले वर्तते वा भवतु भूतलेपि वर्तते अतः एव अन्यूनवृत्तित्वमपि न सङ्गूनवृक्षोत् वैस् अन्यूनवृत्तित्वं न सङ्गच्छते अपि च अनतिरिक्तवृक्षत्वं तु सङ्गच्छते यतोहि कापि अधिकरणता वृक्ष वृक्षत्वस्य वृक्षत्वं विना भवति अपि च वरिक्षत्वं कापि अधिकरणतां विना भवति उभयम् उभयत्रा व्यभिचारः अस्तु महोदय तदेव सम्यक् भगिनि समीचीनं भवतु तर्हि तर्हि तर्हि नीलां भगिनि आगतवती मया दृष्टं पतति वा किञ्चित् अस्तु महोदय पठामि अधुना वृक्षस्य अग्र अग्रभागं पश्येम तस्मिन् अग्रभागे अन्यून्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् अर्हति किम् यत्र यत्र वृक्षे कपि संयोगनिष्ठ आदेयतानिरूपित अधिकरणता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते अस्य उदाहरणार्थं यत्र यत्र तत्र तत्र, तत्र इति सम्यक्तया बोध्यम् mm. इत्युक्ते महोदय अत्र अत्र, कृपि संयोगः तु अग्रबा अग्रभागे वृक्षस्य अग्रभागे एव अस्ति सो तत्र अधुना इदानीं तत्र किं वृक्षस्य अग्रभागः पश्यम, किमर्थं चेत् अत्र यत्र यत्र कपिसंयोगनिष्ठ अधेयतानिरूपिता अधिकर्णता तत्र तत्र वृक्षत्वम् इति यः अस्ति तत्र सदा तत् तादृश तत्र नास्ति इत्युक्ते यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः अपि इति नास्ति तथैव यत्र यत्र कपि संयोगः तत्र तत्र वृक्षत्वम् इति अस्ति तथा अपि नास्ति सो इदानीं तत्र यः उदाहरणम् अस्ति वृक्षस्य अग्रभागे कपि संयोगः तत् पश्यामः तस्मिन् अग्रभाग्ये अन्यून्य अन्यून्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् अर्हति किम् सो तत्र अग्रभागे इति पश्य इदानीं तु पूर्वे सर्वत्र वृक्षे वयं दृष्टवन्तः तत्र अन्यून्य अनतिरिक्तवृत्तित्वम् इति नास्ति इदानीम् अग्रभागे पश्यामः सो अग्रभागे इति तत्र एतादृशः अन्यून्य अनतिरिक्तवृत्तित्वम् इति एतादृश अवच्छेदकत्वम् अर्हति सो so, यत्र यत्र वृक्षे कपि संयोगनिष्ठ अध्येयता निरूपित अधिकर्णता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा सो so, uh, सर्वदा तु तदा तथा नास्ति सो so, सर्वदा कपि इति अग्रभागे एव अस्ति इति तु वक्तुं शक्यते अतः तस्य तादृश तस्य कृते तत् अग्रे तत्र दृश् तस्य विषये अग्रे तत्र उदाहरणं दृश् दत्तम् इत्युक्ते अस्य उदाहरणार्थं सुप्र प्रथमे एतादृशः यः उदाहरणमस्ति तत्र प्रथमे किं यत्र यत्र तत्र तत्र यः लिखितमस्ति तस्य सम्यक्तया अवगमनं भवति चेदेव वयं तत्र तस्य बोधनं भवति इति अत्र लिखितम् अत्र उदाहरणं कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ अधेयतानिरूपित अधिकर्णतायाः अवच्छेदकः अवच्छेद्याः कपिसंयोगनिष्ठेयतानिरूपित अधिक अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न एक चिंतम शक्त यता अस्थ वृक्ष अग्रभागे नामना अवच्छेद अभी अस्थ अथा वृक्ष से मूलभागे कपयोगताकर्णता अभी निक वृक्षस्य अग्रभागः अपि नास्ति अनेन यत्र यत्र तत्र तत्र इति तु साधितं किल किं चिन्तनम् कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ आध्येयता निरूपित अधिकरणतयाः अवच्छेदक इति तु सम्यक् अस्ति एतत् वाक्यं सम्यक् इत्युक्ते अत्र किं लिखितमस्ति अग्रभागः तस् अग्रभागः तस्य कपिसंयोगनिष्ठ अधेयतानिरूपित अधिकरणतायाः अवच्छेदकम् अवच्छेदकः अत्र न केवलं कपिसंयोगनिष्ठ अधेयतानिरूपित अधिकरण परन्तु अत्र अग्रभाग अग्रभाग कपिसंयोगनिष्ठ अध्येयता निरूपित अधिकर्णतयाः अवच्छेदकम् अवच्छेदकः अग्रभागः अत्र अवच्छेदकः भवति अवच्छेद्याः कपिसंयोगनिष्ठ अध्येयता निरूपित अधिकर्णता अवच्छेद्या कपिसंयो अधिकर्णता सो so, अत्र अवच्छेद्या कपिसंयोगनिष्ठ आधेयता कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता कुत्र वृक्षे सो so, इत्युक्ते अवच्छेद्या द्वारा यः अधिकरणता अग्रभागः अवच्छेदकः कस्य अवच्छेदकः कति संयोगनिष्टकरणतायाः यदि तस्याः यदि अग्रभागः अधिकरणतायाः अवच्छेदकः तर्हि अवच्छेद्यः वर् अवच्छेद्यः वर्तते अधिकरणता नाम यस्या किमपि अधि अवच्छेदकम् तदेव अवच्छेद्य अवच्छेद्यं नाम भवतु इदानीं तत् उदाहरणं केवलं तत्र वा वाक्य अवगमनम् अवगमनार्थं भवतु देवदात्तः याज्ञदात्तस्य अवच्छेदकः तर्हि याज्ञदात्तः भवति अवच्छेद्यः तदेव इदानीं केवलं तथा उक्तम् इदानीम् अवच्छेदकः भवति अग्रभागः तर्हि यदि अग्रभागः अधिकरणतायाः अवच्छेदकः अग्रभागः अधिकरणता साक्षात् अवच्छिद्य इति तावत् अत्र महोदय वाक्यमस्ति कपिसंयोगः वृक्षे सो कपिसंयोगः वृक्षे तु सम्पूर्णतया नास्ति अग्रभागः अग्रभागकपिसंयोगनिष्ठ निरूपि वस्तुतः तथा म चिन्तयतु यतोहि इदानीं सः केवलं तत्र किञ्चित् प्र प्रदर्शयति इदानीं वस्तुतः अन्ततो गत्वा अत्रावच्छेदकम् इति अस्मिन् विशिष्टे परिभाषिके अर्थे <sum> न प्रयुक्तः परन्तु कस्मिंश्चित् समानीयार्थे इदानीं त परन्तु तयोः समान समानविशिष्टार्थयोः तत्र सूक्ष्मं भेदं प्रतिपादयितुम् एतत् सम्पूर्णं कारपत्रं तत्र विरचितम् इदानीं केवलं तथा चिन्तयतु कपि संयोगः वृक्षस्य अग्रभागे अस्ति इति वास्तुस्थितिः इदानीं तथा चिन्तयामः चेत् तर्हि नाम कपि संयोगनिष्ठेयता निरूपित अधिकरणता या वर्तते तस्या अवच्छेदकः भवतु एतत् अधिकरणतम् एतत् अधिकरणत्वम् एषा अधिकरणता वृक्षे अस्ति इति सामान्यचिन्तनं कुर्मः चेत् वृक्षे अस्ति तस्य अवच्छेदकः तत्र न्यूनीकारकः वर्तते अग्रभागः इत्युक्ते कपि संयोगनिष्ठयः आदेयत सः तेन किं निरूप्यते अधिकरणता निरूप्यते तेन अधिकरणता निरूप्यते अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा यत्र यत्र कपि संयोगनिष्ठ अध्ययता तत्र तत्र तत्र तत्र अवच्छेद्यः तत्र तत्र अवच्छेद्यः अपि तत्र वर्तते न वा किं वाक्यम् इदानीं परिशीलयामः कस्या वाक्यस्य परीक्षा क्रियते इत्युक्ते यत्र यत्र कपि संयोगनिष्ठा अधीयता अवच्छेद्य अपि तत्र, तत्र, तत्र, तत्र, तत्र, तत्र वर्तते न वा न न इदानीं अस्माकं परिशीलनं कुत्र क्रियते अग्रभागः वा मूलं वा अवच्छेदकं भवितुम् अर्हति न वा अत एव यत्र यत्र तत्र तत्र एषः वाक्यः अवच्छेद् अवच्छेदकस्य अवच्छेद्यस्य च मध्ये मध्ये विरचनीयं वर्तते अत एव यत्र यत्र अवच्छेदकः नाम अग्रभागः तत्र तात्र अवच्छेद्यम् अत्र अस्माकम् अधिकरणता अपि च तत्र विपरीतरूपेण यदि सङ्गच्छते तत् यत्र यत्र तत्र तत्र वाक्यं तर्हि सम् सम्यक् भवति अतः एव इदानीं सम्पूर्णं किञ्चित् तत्र यात्र यात्र अग्रभागः तात्र तात्र कति संयोगनिष्ठेयता निरूपित अधिकरणता अथवा वृक्षनिष्ठ अधिकरणता इति एकम् अपि च यत्र कपि संयोगनिष्ठादि यथा निरूपितवृक्षनिष्ठादिकरणता तत्र तत्र अग्रभागः इति इदानीं परिशील्यते यतो हि अग्रभागः इदानीम् अवच्चेदकत्वेन स्वीक्रियते hmm. इदानीम् अत्र <laughs> hmm. hmm. एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव तदा तादृश अग्रभागनाम्ना अवच्छेदकः अपि अस्ति सो hmm. so, तादृशः यः अधिकरणता hmm. वृक्षस्य अग्रभागे एव तदा तादृश अग्रभागनाम्ना अवच्छेदकः अपि अस्ति सो इत्युक्ते तत्र यः अवच्छेदकः अग्रभाग विना न तत्र वक्तुं शक् शक्नुमः सो यत् यत् तादृश अधिकरण अधिकरणता अस्ति तत्र तत्र अग्रभागनाम्ना अवच्छेदकः अपि अस्ति अन्यत्र अन्यत्र यथा वृक्षस्य मूलभागे कपि संयोगनिष्ठ अधेयतानिरूपित अधिकरणता नास्ति hmm. वृक्षस्य अग्रे भागः अपि नास्ति सो so, अन्यत्र इत्युक्ते तत्र मूलभागे वृक्षस्य yeah. मूलभागे तत्र कपि संयोगनिष्ठ अधेयता निरूपित अधिकरणता नास्ति किमर्थं चेत् तत्र कपि संयोग अस्ति सो तत्र नास्ति सो तत्र वृक्षस्य अग्रभागः अपि नास्ति तत्र वृक्षस्य अग्रभागः तु नास्ति मूलभागः अस्ति सो अनेन यत्र यत्र तत्र तत्र इति तु साधि साधितं किल किं चिन्तनम् इत्युक्ते तत्र यत्र यत्र यत्र यत्र कपि संयोगनिष्ठा अध्येयता नास्ति तत्र अग्रभागः अपि नास्ति नास्ति अपि च यत्र सा अस्ति तत्र नाम यत्र अधिकरणता अस्ति तत्र अग्रभागः अपि अस्ति अन्यत्रापि यत्र यत्र वृक्षस्य अग्रभागः वर्तते अस्य वृक्षस्य अग्रभागः वर्तते तत्र सर्वस् तत्र सर्वस्मिन् तादृशी अग्रभागे तत्र सर्वत्र इत्युक्ते अत्र <laughs> <वस्वाँ वादा> <laughs> अस्यां दशायाम् इत्युक्ते कपिसंयोगः इत्यस्य अग्रभागे अस्ति तत्र वयम् एतादृशरीत्या वक्तुं शक्नुमः इत्युक्ते यत्र यत्र तत्र तत्र इत्युक्ते यत्र यत्र अग्रभागः तत्र तत्र कपिसंयोगनिष्ठेयतानिरूपित अधिकरणता अस्ति यत्र य अग्रभागः नास्ति तत्र कपि संयोगनिष्ठाधेयताधिकरणता नास्ति यत्र तत्र वक्तुं शक्नुमः तादृशी तत्रापि आनेतुं शक्नुमः वृक्षत्वनिष्ठता इदानीं सा अधिकरणता कपि संयोगनिष्ठाधेयता निरूपित अपि च वृक्षत्वनिष्ठा अत एव तथा उभयं सङ्गच्छति इदानीं वृक्षे यत् या विद्यमानादिकरणता य कति संयोगनिष्ठादे यता निरूपिता सा इदानीं केवलम् अग्रभागे वर्तते परन्तु अग्र अग्रभागे इतरे इतरभागे नास्ति अत एव अग्रभागः अवचेत् खैचि भाचि अथवा तथा द्वयोः अतिरिक्त अनतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न स्यात् कुत्रचित् अपरवृक्षस्य अग्रभागे कपि संयोगः नास्ति इति कारणं किम तथा न अत्र प्रमुखप्रश्नः अस्ति यत् अस्मिन् एव वृक्षे यत्र कपि संयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते तस्य अधिकरणं किम् hmm. तथा द्वयोः अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न ओके इदानीम् एकम् ए एकं मतं तत्र अस्माभिः अनुभूयु अभ्युपग अभ्युपगम्यते यत् तत्र एतत् वर्तते अन्यूनस्य कृतं वर्तते इदानीम् ओके अन्यूनस्य कृतं नास्ति इति अन्यः वदति तर्हि किमर्थं नास्ति ओके इदानीं सः वदति किमर्थं नास्ति कुत्रचित् अपरवृक्षस्य अग्रभागे कपि संयोगः नास्ति सो इत्युक्ते सर्वेषु वृक्षेषु तु अग्रभागे कपि संयोगः इति अस्ति इति तु न वक्तुं शक्यते सो कुत्रचित् अपरवृक्षस्य अग्रभागे कपि संयोगः नास्ति इति कारणं किं तथा नो सः इदानीं नाम स्वरूप अत्र प्रमुखप्रश्नः अस्ति यत् अस्मिन् एव वृक्षे यत्र कपि संयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते तस्य अधिकरणम् किम् इत्युक्ते अस्मिन् एव वृक्षे तत्र पश्यामः चेत् तत्र तत्र अग्रभागे कपि संयोगः परन्तु इदानीं प्रश्नः अस्ति अग्रभागः कुत्र वर्तते तस्य अधिक अग्रभागस्य अधिकरणं किम् इदानीं सः किं भवतु एकः वस्तुतः तादृशः तादृशः अपि प्रश्नः कर्तुं शक्यः भवतु इदानीं अग्रभागः यत्र यत्र अग्रभागः तत्र तत्र अधिकरणः अधिकरणत्वम् इति तथा वक्तुं शक्यते तथा वक्तुं न शक्यते भवतु नाम परन्तु इदानीम् अब् इदानीं तथा एव स्वीकुर्मः इदानीं तस्मिन् विशिष्टे पुरोवर्तिनी वृक्षे कापि संयोगः वर्तते ओके तथा चिन्तयामः चेत् तर्हि कापि संयोगनिस्तथा निरूपित प्रोवार्तिवृक्षनिष्ठ अधिकरणता तस्य तादृशायाः अधिकरणतायाः तादृश्याः अधिकरणतायाः किम् अस्माकम् अग्रभागः भवितुम् अर्हचि अवच्छेदकं न वार्ग अग्रभागः भवितुम् अर्हचि अवच्छेदकः न इदानीं तर्हि तत्र अन्यूनातिरिक्तविरिचित्वम् ओके यद्यपि सङ्गच्छते इति भाति तथापि तत्र समानाधिकरण्यम् इति अन्यत् किञ्चित् चिन्तनीयं तयोः समानाधिकरण्यम् अस्ति न वा अतः एव एतत् तादृशं तादृशीं समस्यां तत्र अवतारयितुं सः वदति तस्य अधिकरणं प्रदर्शयति तत् तयोः समानम् नास्ति अधिकरणतायाः अपि च अग्रभागस्य अथवा अस्ति भवतु पश्यामः सम्यक् एतत् न पतितं प्राक् परन्तु एतावता एतावता सः ओके इदानीम् तादृशं तादृशं तादृशी समस्या भवतु तत् तथा प्रदर्शयितुं शक्यते नाम न हि खलु अग्रभागे कुत्रचित् ништа, Бату, это задание масту. कापि संयोगनिष्ठेयता निरूपित अधिकरणते बतु एतत् एतत् इदानीं मास्तु तथा कदाचित् समन्वयः कर्तुं शक्यते इदानीं यदि निश् वृक्षनिष्ठ इति स्थले पुरोवर्तिवृक्षनिष्ठ इति किञ्चित् तथा वदामः तथा वदामः इति चेत् तर्हि कस्मिंश्चित् विशिष्टवृक्षनिष्ठादिकरण नाम कापि संयोग कापि संयोगनिष्ठदेयता निरूपित विशिष्टवृक्षनिष्ठ अधिकरणता तादृशायः अधिकरणतायाः अग्रभागः भवति अवच्छेदकः न वा ओके एतत् अमुम् प्रश्नाम् इदानीम् उत्तरयितुम् अन्यः कश्चन प्रश्नः कर्तव्यः अन्यत् परिशीलनं कर्तव्यम् किं तस्य अधिकरणस्य तत्र क्षमता तस्य अग्रभागस्य यः अग्रभागः उच्यते तस्य अग्रभागस्य किम् अधिकरणं तयोः नाम समान तत् क्षमताम् अधिकरणतायाः अपि च अग्रिभाग अग्रभागस्य वर्तते समानाधिकरण्यं न इति प्रश्नः इति प्रश्नः अस्मिन् सप्ताहे तत्र उपस्थापितः अग्रिमे सप्ताहे तस्य उत्तरं दीयते इति मन्ये भवतु इदानीं प्रश्नाः सन्ति वा न महोदय वसतः मम प्रश्नः वर्तते नाम प्रश्नः न परन्तु इदानीं तत् रिकार्डिङ्ग् स्थगयामि धन्यवादः